अस्माकं सम्भाषणवर्गे सर्वेषां स्वागतम् सरस्वतीवन्दनया आरम्भं कुर्मः ओगस्ट् महोदय भवान् वदति वा सरस्वतिवन्दना कृपया ॐ सरस्वती, सरस्वती नमस्तुभ्यं वरदेकामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा हरि हरि ओम् नमो नमः नमस्कारः अस्तु इदानीम् अस्माकम् अद्यतनस्य पठनबिन्दुः अद्यदिनस्य पठनबिन्दुस्सह एकवारम् अवधानं ददातु वदामि गतसप्ताहे वयम् किम किम आगामी है। किम किम गत संस्कृत भाषायां रुचि अस्वन कह गत ी गतसप्ताहे गतवर्षे अग्रिमे सप्ताहे वा आगामि सप्ताहे आगामिवर्षे अध्ययनं कुर्मः प्रथमतः तु एकवारं स्क्रीन् शेर् करोमि पठनं कुर्मः दृश्यते दृश्यते दृश्यते आं दृश्यते भवान् पठति वा आम् गत मासे। गत आगामि गतमासे गतदिने गत गतवर्ष निर्वाचनम् आसीत् hmm. oh, uh -huh. uh, गतमासे uh -huh. निर, निर्वाचनम् आसीत् hmm. दिने निर्वाचनम् आसीत् hmm. गतसप्ताहे निर्वाचनम् आसीत् hmm. गतवर्षे निर्वाचनम् आसीत् hmm. गत इतोपि गतमासे मम गृहे अतिथिः गतमासे मम गृहे अतिथिः आसीत् गतदिने hmm. मम गृहे अतिथिः आसीत् हे मम गृहे अतिथिः आसीत् hmm. गतवर्षे मम गृहे अतिथिः आसीत् hmm. आगामि अत्र बोधनम् एकनि अत्र बोधनं कस्य भवति गतमासस्य विषये गतदिनस्य विषये गतसप्ताहस्य विषये गतवर्षस्य विषये आसीत् अतः भूतकालवाचि क्रियापदम् आसीत् yeah. कदा आशित? गतमासे आसीत् वा गतदिने आसीत् वा गतसप्ताहे आसीत् वा गतवर्षे आसीत् तत्र या कापि क्रिया तत्र प्रवर्तते ता भूतकाले अभवत् भूतकाले गतमासे गतदिने गतसप्ताहे गतवर्षे अतः तत्र क्रियापदं किमस्ति आसीत् इति क्रियापदम् अस्तु अग्रिमे आगामि आगामिवर्षे आगामिवर्षे मम मित्रम् आगमिष्यति आगामिमासे मम मित्रम् आगमिष्यति आगामिसप्ताहे मम मित्रम् आगमिष्यति आगामिसप्ता पर्वदिने मम मित्रम् आगमिष्यति तत्र आगामिसप्ताहे मम मित्रम् आगमिष्यति आगमिष्यति तत्र भविष्यत्कालविषयस्य बोधनमस्ति अतः तत्र भविष्यत्कालरूपाणि आगमिष्यति भविष्यति गमिष्यति वदिष्यति तत्र आगामिवर्षे वा आगामि मासे वा आगामिसप्ताहे वा आगामिपर्वदिने मम मित्रम् आगमिष्यति एवमस्ति इति गत आगामि शब्दस्य योजनेन अस्तु इदानीम् अस्माकं जालपुटे किं दत्तमस्ति तत् वयं पश्यामः जालपुटे गत आगामि बिन्दोः विषये किं दत्तमस्ति तत् पठिष्यामः आगामि गत तस्य विषये अपि अस्ति भारतमहोदय धन्यवाद धन्यवादः इदानीम् आगस्ट् महोदये भवान् पठति आगामि आगामि आगामिवर्षे अहं माता मह्याः गृहं गमिष्यामि अत्र मातामही तस्य षष्ठीरूप षष्ठ्यन्तपदं माता मह्याः मातामही इत्युक्ते का महोदय मातामही पितामही मातामही मातुः माता हा मातुः मम माता अस्ति तस्याः माता मातामही पितामही मम पिता अस्ति पिता पितुः माता मम पिता अस्ति तस्य माता पितामही अस्तु तत्र मातामही पितामही मातामही मदस्मद पितामही फादस् मदं षष्ठन्तपदं मातामह्याः गृहं गमिष्यामि आगामिवर्षे हा तत्र भविष्यत्कालस्य विषये वाक्यं बोधनं करोति अतः तत्र गमिष्यामि आगामि इति वाक्यं सूचयति अग्रिमे मासे देव्याः भागवतं श्रोष्या श्रोष्यामि श्रोष्यामि अहं श्रोष्यामि आगामी मासे देव्याः भागवतम् इति भागवतम् इति एकम् एकः ग्रन्थः अस्ति तत्र हा श्रीमद्भागवत इति श्रीमद्भागवतं तत् श्रोष्यामि तस्य श्रवणम् करिष्यामि इति वदति अग्रिमे गतऋतुः वसन्तः आसीत् आगामि आगामी ऋतुः वार्षऋतुः भविष्यति तत्र ऋतु इत्युक्ते सीजन्स् गत ऋतुः वसन्त आसीत् आगामि ऋतु वर्षऋतुः भविष्यति आसीत् भविष्यति गत आसीत् आगामि भविष्यति अग्रिमे जातऋतुः हेमन्तः आसीत् आगामि ऋतुः शिशिरऋतुः शीरा। भविष्यति सम्यक् अग्रिमे आगामि स्वादिष्टं भवेत् केवलम् आगामिशब्दस्य योजनेन वाक्यं रचितं दृश्यते आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत् इति हा तत्र भविष्यति तु अस्ति एव आगामि इत्युक्ते परन्तु भवेत् इति तत्र विद्य विधिलिङ्गरूपं तत्र भवेत् इति सः वदति आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत् इति इच्छातम् अग्रिमे वर्गे नूतनं नूतनं विषयं पठिष्यामः आगामिवर्गे नूतनं विषयं पठिष्यामः पठिष्यामः भविष्यत्काले अनन्तरम् आगामिवर्षे प्रयागे पर्यटनाय मम अभिरुचिः अस्ति तत्र एकं विधानं करोति सः आगामिवर्षे प्रयागे पर्यटनाय मम अभिरुचिः अस्ति इति तावदेव सम्यक् महोदय धन्यवादः धन्यवादः धन्यवादः धन्यवादः इदानीं राधा भगिनी राधा भगिनी आं भगिनि आगामी शब्दस्य योजनेन कानिचन वाक्यानि वदति वाक्यद्वयं <laughs> वा आगामी इति <थी>। <laughs> आ... गत आगामि मिलित्वापि वक्तुं शक्नोति परन्तु आगामिशब्द तत्र भवेत् ओके okay. uh, आगामिवर्षे अहं भारतदेशे आगमिष्यति ष्यति वा उत्तमं वा आगामि सप्ताहे मम गृहे बान्धव बान्धवाः आगमिष्यति वड् रिलेटिव्स् बान्ध बान्धवाः बान्धवाः ल् अस्ति खलु अनेक बहुवचनानि भवति आगमिष्यन्ति आगमिष्यन्ति अस्तु अस्तु अस्तु सम्यक् अग्रिमे भवती गतविषये यद्दत्तमस्ति तत् पठति वा गत गतमासे होलिका उत्सवः आसीत् गतसप्ताहे अहं रामस्य कथां श्रुतवती गतदिने तस्याः स्वास्थ्यं समीचीनं नासीत् hmm. गतकेषुचन दिनेषु सः एकाकी एवं कार्यं करोति hmm. बालकः गतवर्षे अष्टमीकक्षायां पठितवान् वर्षे नवमी नवमीकक्षायां पठिष्यति hmm. गतवर्षद्वयात आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति अत्र hmm. hmm. पश्यन्तु सर्वेषु स्थलेषु तत्र प्रथमे वाक्ये अपि आसीत् भूतकाल् श्रुतवती अपि यथा अहम् उक्तवती तत्तव तु प्रत्ययरूपमस्ति तद् भूतकाल एवं दर्शयति तत्र mm. समीचीनं न आसीत् इति स्वास्थ्यं समीचीनं न आसीत् mm. गतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति तत्र विधानं दर्शयति अतः तत्र mm. करोति इति रूपं mm. दृश्यते mm. अनन्तरं गतवर्षे पठितवान् आगामिवर्षे पठिष्यति अन्तिमे वाक्ये mm. गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति तत्र अभ्यासस्य आरम्भं कृतं तेन कदा गतवर्ष हा गतवर्षद्वयात् इदानीमपि अभ्यासः प्रचलन् अस्ति तत्र प्रचलन् इति शत्रुप्रत्ययन्तरूपं प्रचलन् तत्र आन् गोयिङ्ग् प्रोसेस् अभ्यासः प्रचलन् अस्ति अतः तत्र अस्ति इति रूपं दृश्यते अस्तु सम्यक् भगिनि उत्तमम् अवश्य धन्यवादः धन्यवादः अधुना वीणा वीणा भगिनी नमस्ते भगिनि भवती योजना कृपया करोतु तत्र वाक्यानि वाक्यद्वयं वा त्रयं वा हा भगिनि <coughs> गत गतमासद्वयात् आरभ्य मम संस्कृतभाषा अभ्यासः प्रचलन् अस्तु गतमासद्वयात् अस्तु <laughs> अनन्तरम् इतोपि एकं वदति वा um, uh, गतवर्ष गतवर्षद्वयात् मम um, समीपे मम श्वानः अस्ति अस्तु सम्यक् इदानीं भवती गत hmm. आगामि हा एकं वाक्यं hmm. तत्र अहं पृच्छामि भवत्याः कृते यस्मिन् तत्र आगामि अपि अस्ति गत अपि अस्ति तत् वदति वा hmm. आगामि अपि गत अपि मिलित्वा मिलित्वा उदाहरणम् एतद् वाक्यः उदाहरणम् अत्र पश्य अत्र पश्यतु गत तत्र बालकः गतवर्षे अष्टमीकक्षायां पठितवान् आगामिवर्षे नवमीकक्षायां पठिष्यन्ति इत्युक्ते अत्र अत्र विचारः कः तत्र गत योजनेन, तत्र भूतकालं दर्शयित्वा आगामिशब्दस्य योजनेन भविष्यकालस्य बोधनं भवेत् एवं भगिनि प्रय अया प्रयत्नं करोमि हा बालकः गतवर्षः एकवर्षः अभवत् आगामिवर्षे आगमि आगामिवर्षे एषः द्वे द्विवर्षाः भवति तत्र एज् विषये भवति वदति अस्तु पश्यतु अत्र अत्र कथम् अस्माकं स्पोकन् संस्कृति इति अस्ति खलु पश्यतु अत्र गतवर्षे वयं सर्वे भ्रमणार्थं भ्रमणार्थं कश्मीरनगरम् गतवन्तः आगामिवर्षे वयं सर्वे भ्रमणार्थम् कन्याकुमरी कन्याकुमारीनगरीं गमिष्यामः एवम् इतोपि अस्ति हा तत्र वयं गतवन्तः वयं गमिष्यामः इतोपि पठितवन्तः पठिष्यामः कृतवन्तः करिष्यामः एवमस्ति अस्तु गत इति योजनेन भूतकालस्य योजना गत यदा आगच्छति चेत् तत्र भूतकालदर्शयित्वा क्रियापदस्य योजना भवति आगामि अस्ति चेत् भविष्यकम् चे इतोपि वदतु इदानीं प्रयत्नं करोतु भवती वक्तुं शक्नोति गतवर्षे अहम् एतत् पठितवती मम मनसि किमस्ति आगामिवर्षे एतत् पठिष्यामि पठिष्यामि एवं हा वदतु इदानीं अस्तु भगिनि गतवर्षे अहं बेङ्गलूरुनगरे बेङ्गलूरुनगरं गतवती गतवती गत, आगामिवर्षे अहं मुम्बैनगरं गमिष्यामि सम्यक उत्तममस्ति उत्तममस्ति सम्यक इतोपि अत्र भेदः कः अस्ति सर्वेषां कृते एकवारं वदामि भेदः <laughs> कः अस्ति गतशब्दस्य योजना तत्र भूतकालवाचीक्रियायाः दर्शनं भवति आगामिशब्दस्य योजनेन भविष्यत्कालं सूचयति भविष्यत्कालस्य विषये आगामिशब्दस्य योजनेन वाक्यरचना भवेत् एवमस्ति अस्तु इदानीं स्पष्टमस्ति सर्वेषां अस्तु धन्यवादः हा श्रीवत्समहोदय श्रीवत्समहोदय भवान् वदति वा गत आगामि शब्दस्य योजनेन गतः वा आगामि वा द्वयोः मिलित्वा कानिचन वाक्यानि वदतु आं प्रयत्नं करोमि गतमासे अहं इङ्ग्लेण्ड् नगरे आसीत् आगामिमासे अहम् अहम् आसम् अहम् आसम् अहम् आसं गतमासे अहं इङ्ग्लेण्ड् नगरे आसम् आगामिमासे अहं दुबैनगरे गमिष्यामि सम्यक् इतोपि एकं वदतु गतवर्षे गतवर्षे अहं संस्कृत संस्कृतकक्षा कक्षायां सम्मिलितः प्रविष्टवान् वक्तुं शक्नोति भवान् प्रविष्टवान् संस्कृतकक्षायां प्रतिष्ठित प्रतिष्ठितवन्तः प्रविष्टवान् इति प्रविष्टवान् सिङ्ग्युलर् इति प्रविष्टवान् प्रविष्टवान् आगामिवर्षे आगामिवर्षे अहं सं, संस् संस्कृतभाषायां सम्भाषणं करिष्यामि प्रवीणतया प्रावीण्यं मम प्रावीण्यं भविष्यति सम्भाषणस्य विषये इति बहु सम्यक् बहु अस्माकं प्रथमाकक्षा कदा अभवत् स्मरति वा फिफ्त् फेब्रुवरी इति अस्ति तत् अद्यदिनस्य अस्माकं 40th सेशन् इति स्टार्टिड् आन् फिफ़्त् आफ़् फेब्रुवरी एण्ड् टुडे इस् अवर् 40th सेशन् ट्वेण्टि th नवेम्बर् अस्तु okay. हा उत्तमम् अग्रे सरेम सर्वेषां मनसि तत्र स्पष्टता अस्ति गत आगामी विषय इति मनने स्पष्टमस्ति खलु सर्वेषां कृते अस्तु अग्रे हा तत्र यावत् तावत् विषयस्य किञ्चित् पठनं यावत् तावत् एकवारं सर्वे शृण्वन्तु अवधानेन हा अहं कानिचन वाक्यानि भगिनि वदामि यावत् तावत् हा यावत् यावत् जलं समुद्रे अस्ति यावत् जलं समुद्रे अस्ति तावत् जलं कूपे नास्ति कूप इति वेल् इति ह कूपे तावत् जलं नास्ति यावत् जलं समुद्रे अस्ति तावत् जलम् कूपे नास्ति इतोपि एकं वदामि यावत् यावत् सा सुन्दरं नृत्यति तावत् एषा नृत्यति तावत् एषा नृत्यति रामः यावत् क्रीडति तावत् सुरेशः न, तावत न क्रीडति इत्युक्ते अत्र किं भवति ऐ एम् कम्पेरिङ्ग् टु केरेक्टर्स् टु टु थिङ्ग्स् वा टु केरेक्टर्स् वा टु आब्जेक्ट्स् वा तत्र फिसिकल् क्वाण्टिटि अहं वदामि रामः यावत् क्रीडति तावत् सुरेशः न क्रीडति तत्र कोऽपि फिजिकल् एण्टिटि वा तत्र मेजर्मेण्ट् मापनं नास्ति परन्तु सं लाजिकल् आस्पेक्ट् इस् इन्मोल् रैट् रामः उत्तमतया क्रीडति यावत् क्रीडति तावत् सुरेशः न क्रीडति अत्र यदा अहं वदामि यावत् जलं समुद्रे अस्ति ऐ एम् रिफरिङ्ग् टु फिसिकल् क्वाण्टिटि यावत् जलं समुद्रे अस्ति तावत् जलं कूपे नास्ति नद्यां यावत् जलमस्ति तावत् जलं सरोवरे नास्ति ऐ एम् सोन् हा सो अत्र तुलनार्थं फिसिकल् क्वाण्टिटि अस्ति परन्तु यदा अहं वदामि उदाहरणार्थं भीमस्य यावत् धैर्यमस्ति तावत् अन्यस्य नास्ति इत्युक्ते अहं किं चिन्तयामि अन्येषु पाण्डवेषु तावत् धैर्यं नास्ति यावत् भीमस्य धैर्यम् इति अस्तु मम भगिनी हा मम भगिनी मम भगिनी चतुरा मम भगिनी यावत् पठति तावत् अहं न पठामि यावत् तावत् अत्र अ कालती अवधि दर्शय दीर्घत्म दर्शय यल काल मेघा कथम येघा सी तर्षा भविष्य आकाशे यदि पशा चेत ये सी तर्षा तो निश्चय भविष्य शिक्षक अस् तावत् छात्राः तूष्णीं तिष्ठन्ति इत्युक्ते तत् शिक्षके सति तत्र कोलाहल नास्ति हा यावत् शिक्षकः तिष्ठति वर्गे तावत् छात्राः किं कुर्वन्ति तूष्णीं मौनं तूष्णीं तिष्ठन्ति एव यावत् तावत् अर्थम् अर्थस्पष्टता अस्ति वा अत्र ट्रान्स्लेशन् मास्तु यावत् इत्युक्ते किं तावत् इत्युक्ते किं तत् मास्तु यानि वाक्यानि अहम् उक्तवती तत्र स्पष्टता अस्ति वा भवन्तः सर्वे वदन्तु स्पष्टता अस्ति वा कदा यावत् तावत् योजना करणीयमिति यावत् तावत् इदानीं भारतमहोदयवाक्यं वदति वा यावत् तावत् विषयस्य स्वरचित् किञ्चित् किञ्चित् सर्वे प्रयत्नं कुर्वन्तु इति यावत् तावत् यावत् यावत् मम भ्राता मम भ्राता भवतः um, बन्धु तत्र चतुरः अस्ति यावत् सः पठति तावत् भवान् न पठन्ति इति भवान् वक्तुं शक्नोति सम्यक् उत्तमम् उत्तमम् उत्तमम् उत्तम, उत्तम। इतोपि तत्र मालती जगन्नाथन् तत्र नूतनः वा अत्र मालती भगिनी आम भवान् भवती नूतनतया अत्र आगच्छति वा आं भगिनि अस्तु नमो नमः भवती वदति वा यावत् तावत् विशेषस्य वाक्यं यावत् मम माता पचति तावत् अहं न पचति बहु uh सम्यक् -huh. उत्तमं uh, सत्यमेव um, मातुः uh, पाककौशल्य तत् तावत् न प्राप्तुं शक्नुमः वयं सम्यक् उत्तमं uh, राधा भगिनी वदति वा एकं वाक्यं वदतु राधा भगिनी यावत् uh, रमा सुन्दरं गायति तावत् uh, uh, उत्तमम् uh, उत्तमं वीणा भगिनी वदति वा uh -huh. यावत् वर्षं पतति तावत् नदी धाव अत्र यावत् वर्षा वर्षा पतति जलवर्षा uh -huh. तत्र तावत् uh -huh. नदी वहति यावत् वर्षा अस्ति तावत् नदी वहति एवं सम्यक् सम्यक् श्रीवत् स महोदय भवान् वदतु यावत् तावत् um. yeah, um. yeah, अहं पर्यन्तम् अपि यूस् कर् शक् शक्नुमः यावत्पर्यन्तम् यावत्पर्यन्तं पर्यन्तं से योजना भवान् इच्छति यावत्पर्यन्तं वृक्षाः सन्ति वृष्टिः भवेत् सम्यक् उत्तमं सम्यक् इदानीं कः आगस्ट् महोदय भवान् वदति वा यावत् तावत् शब्दस्य योजनेन प्रयत्नं करोमि हा निश्चयेन तत्र युगलमस्ति यावत् वदतु हा या वार्गं शृणोमि तावत् प्रयत्नम् अवगम अवगमनं करोमि अरे बहु अवगमनस्य कृते प्रयत्नं करोमि बहु सम्यक् उत्तमं महोदय उत्तमम् उत्तमम् उत्तमं था, करोतु तथैव करोतु अस्तु इदानीं भवानेव किञ्चित् वयं पठनं कुर्मः तत्र हा जालपुटे किम दत्तमस्ति पठिष्यामः अनन्तरं तत्र स्क्रीन्शाट्स् अपि अस्ति तत्रापि पश्यामः किम दत्तमस्ति यावत् तावत् दृश्यते किं दृश्यते आं भगिनि दृश्यते अस्तु ओगस्ट् महोदय भवान् एव पठतु यावात् तावत् यावत् आहारं भीमः खादति तावा न न खादति अत्र भी, भीमः तत्र वृकोदर इति नामना न्यायते खलु भीमः वृकोदरः वृकस्य उदरः यस्य सः वृकोदरः तत्र आहारम् आहारस्य विषये सर्वे जानाति यावत् सः खादति तावत् नकुलः कनिष्ठबन्धुः तावत् सह खादितुमेव न शक्नोति यावत् भीमः खादाति यावत् आहारं भीमः खादति तावत् नकुलः न खादति अग्रिमे वदतु पठतु महोदय यावत् शैत्यं नाग नागपुरे अस्ति तावत् कोचिने नास्ति नागपुरम् तत्र नागपुर नामना एका नगरी तत्र शैत्यम् अधिकमस्ति तावत् कोचिननगरी कोचिननगर्यां नास्ति कोचिने नास्ति अग्रिमे एवमेवर्ड् सेण्टेन्स् एवमेव मेव सर्वे स्वीयस्तरे गृहपाठं कुर्वन्तु हा इत्युक्ते तत्र पठनम् अभवत् पठनम् अभवत् कक्षायाम् अनन्तरं शिक्षकः वदति स्वीयस्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु तत्र स्वाध्यायं करणीयम् इति बोधयति शिक्षकः स्वीयस्तरे आन् युर् ओन् इति व्य गृहपाठक गईड पश्येट यूज कितरे शक्य है तब गृह कुरंत नो मैटर इफ् यू गो रा बट डोट टेक् एनी हेल्प यव्य अस्त अग्रिमे पठत सः यावत् सर्वतया कण्ठस्थीकरणं कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम् इत्युक्ते किं महोदय किमर्थं सः easily memorizes ah sabad okay. uh, mm hmm mama can take for me na mm shakyam is not it's not mm -hmm. possible for me wonderful excellent excellent wonderful uttam dhanyawad uttam dhanyawad ah agri me radha bagini patati va bahushujane pade आ, बहुषु जन जनपदेषु तापमानं यावत्पर्यन्तं सहमानम् आसीत् तावत्पर्यन्तं hmm. ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन् इत्युक्ते इत्युक्ते बहुषु जनपदेषु तापमानं यावत्पर्यन्तं द पीपल् they can tolerate the heat mm -hmm. then the people can tolerate heat taavat mm atil -hmm. uh, uh, uh, the people in the village uh, enjoy doing uh, uh, agriculture they are busy doing agriculture and the, uh, it does not bother them samvik janapadeshu that the janapadeshu states <laughs> it tuktit atra तत्र जनपदेषु इत्युक्ते डिफ्रेण्ट् स्टेट्स् तत्र हस्सिनापुरजनपद अनन्तरं तत्र मिथिलानगरी तत्र भिन्नानि जनपदानि सन्ति ah, तत्र आसन् ah, आसन् ah, ah, पुरा ah, तत्र जनपदेषु इति सम्यक् अग्रिमे मुहुर्मुहुर् अवलेहं न स्पर्शति चेत् सः स्पृशति चेत् स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति इत्युक्ते अवलेहम् इत्युक्ते अवलेहम् इत्युक्ते पिकल् अत्र अवलेहशब्दस्य विषये अपि एकं वक्तुम् इच्छामि संस्कृते शब्दरचना कथं भवति उक्तम् उदाहरणं तत्र तत्र लिह आस्वादने एकः तत्र धातु अस्ति लिह आस्वादने लिह इत्युक्ते किम लिकिंग लिकिंग लिकिङ्ग् हा तत्र लेह भोज्य भक्ष एतादृशी आहारशास्त्रे भिन्नानि भिन्नाः शब्दाः सन्ति तत्र लेह्य इत्युक्ते लिकिङ्ग् लिह धातु धातोः अर्थम् अस्ति लिकिङ्ग् इति हा आस्वादने तस्य लेहनमिति भवति ल्युट् प्रत्ययस्य योजनेन लेहनं hmm. पुल्लिङ्गे रूपं लेहः अवलेहः पिकल् hmm. पिकल् कथं तस्य खादनं भवति स्थाल्यां यदि वयं स्वीकुर्मः पिकल, पिकल् तत्र लिकिङ्ग् एव भवति खलु तत्र चमसेन वयं न खादयामः खादयामः एवं खलु तत्र पश्यन्तु अत्र सूक्ष्मता वर्तते शब्दानां तत्र योजना कथं कृतमसी, कदा कदा अहं मम तथैव चिन्तयामि तत्र हौ डु विट् देट् पिकल् बै लिकिङ्ग् अवलेहः इदानीं वाक्य मुहुर्मुहुर् अवलेहं न स्पृश्यति वेरि ओपन् अगेन् अण्ड् अगेन् रिपीटेड्ल इफ् यु आर् टचिङ्ग् देट् पर्टिक्युलर् अवलेह पश्यन्तु our grandmother's time, टैम् तत्र देर् वोस् अ सिस्टेम् आफ़् मेकिङ्ग् देट अवलेहः डिफ्रेण्ट् टैप्स् आफ् आचा डिफ्रेण्ट् टैप्स् आफ़् पीकल् अण्ड् देन् दे यूस् टु कीप् एव्रिथिङ्ग् असैड् अण्ड् दे यूस् टु स्कोल्डर्स् इ् यु आर् गोण्ट् टु ओपन् इट् Right. सो so, right. न स्पृशति स्पुरुष, चेत् सः दीर्घकालं यावत् स्थास्यति hmm. अत्र तस्मिन् दिने तत्र प्रिसर्वेटिव् वा रेफ्रिजरेशन् न आसीत् खलु तथा दीर्घकालं स्थास्यति अग्रिमे पठतु कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षड्दिनानि यावत् विक्री विक् विक्रतित्वा न लभन्ते अत्र बनास् रैट् किमस्ति भवती प्रथम कदली कुच्च नम्बयित्वा स्थापनेन ओ इफ् यु कीप् द बनानास् इन् अ स्ट्रेट् पोजिशन् फैव् सिक्स् डेस् इट् डजन्ट् गेट् पोइस्ड् तत्र कदलिगुच्छम् इत्युक्ते तत्र बञ्च् आफ् पर्टिकुलर् हौ टु कीप् देट् mm. okay. अत्र केवलं यावत् तावत् विषयस्य अध्ययनं नास्ति mm. अस्माकं संस्कृते कानि कानि योजनानि सन्ति तस्मिन् विषये अपि लम्बयित्वा स्थापयतु yeah. वर्टिकल् लम्बयित्वा स्थापयतु तेन किं mm. भवति कदल्यः पञ्चतः षड्दिनानि यावत् विकृतित्वम् Deformation, it It won't get spoiled. डिफार्मेषन् तत्र स्पायल्ड् इट् वोन् गेट् स्पायल्ड् विकृतित्वं न लभन्ते एतत्तु अहमपि प्रथमवारम् एव ज्ञातवती अहं न have तेन विकृतित्वं न लभन्ते इति इदानीं तु कद्लिगुच्छं तु वयं न पश्यामः कद्लिगुच्छं तत्र संस्कृतेः विषये अपि ज्ञानं भवति अग्रिमे पठतुमानतः सर्वेषु जनपदेषु मध्यम यावत् दृष्टिः अभिले अभिलेखिताः वेद फोर्कास्ट् कृतमस्ति अनुमानतः अनुमानेन किं वदा वदामः अनुमानेन वक्तुं शक्नुमः मध्यं यावत् वृष्टिः अभिलेखिता मध्यं वृष्टि अतिवृष्टि okay. इति मध्यं यावत् वृष्टिः तत्र केवलं यावत् शब्दस्य योजना अत्र दृश्यते तत्र अवलेहस्य कृते अपि कद्लिगुच्छं विषये अपि वृष्टिः अपि अस्तु अग्रिमं वाक्यं वदतु डिसेम्बर् uh, मासस्य uh, त्रिंशत् दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवतुं न शक्यते भवितुं न शक्यते किं डिसेम्बर् मासस्य त्रिंशत् दिनात् मार्च् मासस्य दिनत्रयं यावत् rd थर्ड् आफ़् डिसेम्बर् 2nd आफ् मार्च् देर् इस् नो रीन् धन्यवादः तत्र यावत् तावत् विषयस्य किञ्चित् अत्र किमस्ति अनन्तरं कथायाः पठनं कुर्मः हा अस्तु अविरा भगिनी भवती पठति वा यावत् तावत् अत्र यावत् तावत् एतानि mm. वाक्यानि पूर्णानि करोतु mm. उदाहरणं नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति mm. कर्णाटकं यावत् विशालं केरलं तावत् विशालं नास्ति mm. एषा यावत् कार्यं करोति अहं mm -hmm. तावत् कार्यं न कर्तुं न शक्नोमि वा न करोमि इति अपि इच्छति कर्तुं न शक्नोति अपि सम्यक् एव तत्र अहम् इति वदति चेत् कर्तुं न शक्नोमि इति भीमस्य यावत् भीमस्य यावत् धैर्यम् अस्ति आँ, आँ, आ, आ, नकुलं तावत् धैर्यं नास्ति तावत् धैर्यं नकुलस्य नास्ति नकुलस्य तावत् धैर्यं नास्ति भीमस्य षष्टिविभक्ति आगच्छति तथैव तावत् योजनेन अपि षष्टिः एव भवेत् नकुलस्य इति आगच्छति एवं खलु ओके भगिनि हा हा अग्रिमे सः यावत् सः यावत् वदति तावत् सः यावत् वदति एषा तावत् न वदति सम्यक् सम्यक् अग्रिमे मम भगिनी यावत् पठति बालकः तावत् न पठति सम्यक् उत्तमम् अग्रिमे अहं मधुरं यावत् इच्छामि hmm. सः तावत् मधुरं न अस्ति न इच्छति इच्छति hmm. तत्र इच्छामि इत्युक्ते मधुरम् इच्छामि इत्युक्ते खादनस्य इच्छा अहं मधुरं यावत् इच्छामि तावत् सः मधुरं न इच्छति अग्रिमे सुधा यावत् क्रीडति तावत् रमा न क्रीडति रमायः तत्र तावत् प्रावीण्यं नास्ति सुधा यावत् क्रीडति तावत् रमा न क्रीडति उत्तममस्ति महोदय उत्तमम् उत्तमं धन्यवादः धन्यवादः अधुना कथापठनं न किञ्चित् करोतु न किचि निरपयी अने वाने वा य अध्ययनं कृत्वा स्वगृहं गु स श्रीवत्सः गुरुं नमस्कृत्य पृष्टवान् गुरु भवतः एव नाम अस्ति तत्र श्रीवत्स यावत् शब्द अपि तत्र अस्ति अनेकानि वर्षाणि यावत् गुरुगृहे गुरु अध्ययनं कृत्वा स्वगृहं गन्तुं सज्जः श्रीवत्सः एकः छा छात्रः एकः शिष्य गुरुं नमस्कृत्य पृष्टवान् कां दुरु गुरुदक्षिणां दद्यां हा गुरुदक्षिणायाः विषये सः आसीत् शिष्यस्य वचनं कां गुरुदक्षिणां ददामि सः गुरु अग्रिमे गुरोः प्रियः शिष्यः सः प्रत्यक्षजीवनस्य अनुभवं प्राप्तुम् बह बाह्यजगत् गच्छन् आसीत् अतः गुरुः उक्तवान् त्वं मह्यं निरुपयोगि नि, निरुपयोगीनि सुष्टिपूर्णानि मुष्टि मुष्टिपूर्णानि मुष्टिपूर्णा मुष्टिपूर्णानि पर्णानि गुरुदक्षिणारूपेण देहि इति <laughs> इत्युक्ते अम... प्रथमं गुरोः प्रियशिष्यत् वाक्यस्य अर्थं किं भवति तत् सः सः सः शिष्यः गुरोः प्रियशिष्यः आसीत् गुरोः शिष्यस्य प्रत्य प्रत्यक्षजीवनस्य अनुभवं प्राप्तुं इच्छति तस्मात् कारणात् बाल्यजगत् गच्छ तस्मात् कारणात् गुरुः तं शिष्यम् उक्तवान् त्वं मह्यं निरुप निरुपयोगिनी मुष्टिपूर्णानि पर्णानि um, पर्णानि इस् लीव् लीव्स् रैट् right? um, सम्यक् सम्यक् पर्णानि मुष्टिपूर्णानि मह्यं um, निरुपयोगिनी मुष्टिपूर्णानि पर्णानि uh. गुरु उक्तवान् um, एकः एकविधः uh, पर्णानि um, मुष्टि मुष्टिपूर्णानि मुष्टि इत्युक्ते Um, ष्टि इत्युक्ते किं मुष्टि भवान् जानति मुष्टियुद्ध इदानीं मुष्टिपूर्णानि इत्युक्ते किं भवितुम् अर्हति or... मुष्टि मुष्टियुद्धं तु मुष्टिपूर्णानि hmm. पर्णानि तावदेव परन्तु पर्णानि कीदृशानि निरूपयोगिनी तेषाम् किमपि उपयोगम् न सम्भवति त्वम् देहि देहि आज्ञार्थ मह्यम् देहि ददातु इति किं देहि त्वम् मह्यम् देहि किं देहि निरुपयोगिनि मुष्टिपूर्णानि पर्णानि तुदक्षिणारूपेण देहि अत्र प्रथमे वाक्ये प्रत्यक्ष जीवनस्य अनुभवं प्राप्तुं बाह्यजगत् जगत आसीत् प्रथमवारम् अत्र क्लास्रूम् टीचिंग अभवत् गुरुकुले अध्ययनं समाप्तम् इदानीं व्यवहारिकजीवनस्य आरम्भं व्यवहारे किं भवति तत्र पुस्तकस्थ भवान् भवन्तः सर्वे जानन्ति खलु पुस्तकस्य विद्यापरस्तस्य गतं धनम् इति तत्र प्रात्यक्षिकरूपेण प्रत्यक्ष अनुभवे अनुभवं स्वीकृत्य प्रत्यक्षरूपेण जीवनस्य अनुभवं प्राप्तुं बाह्यजगत् गच्छन् आसीत् गुरु वदति उक्तवान् निरुपयोगीनि मुष्टिपूर्णानि आनयतु मुष्टिपूर्णानि पर्णानि आनयतु गुरुदीक्षणारूपेण देहि इति अस्ति अस्तु अस्तु महोदय धन्यवादः धन्यवादः अग्रिमे भारतमहोदय पठति वा तद् श्रुत्वा मोदितः श्रीवत्सः अन्वेष्टुं प्रस्थितवान् कस्यचन कश, कृषिक्षेत्रस्य कृषिक्षेत्रस्य समीपे Mm -hmm. महन्तं राशिं द्रष्टा द्रष्ट्वा mm -hmm. mm -hmm. सः आनन्दितः सम्यक् मुष्टिमितानि पणानि यावत् सः mm -hmm. स्वस्यूते स्थापितवान् mm -hmm. ताव तावता कृषकः धावन् आगतवान् hmm. तेषां वर्णानां नयनस्य कारणं नत्वा सः hmm. अवदत् hmm. एतानि निरुपयोगिनी न hmm. एतानि ज्वालयित्वा hmm. ज्वाल कृषिक्षेत्रे क्षिपेयं hmm. चेत् hmm. स्थानीयम् इतोपि अधिकतया उत्पद्येत् इति उत्पद्येत् इति hmm. अग्रिमं वाक्यमपि पठतु तदनन्तरं पश्यामि श्रीवद्विवत्सः तानि पर्णानि अत्रैव क्षिप्त्वा अत्र पश्यन्तु किम् अभवत् गुरुः उक्तवान् निरुपयोगिनि मुष्टिपूर्णानि पर्णानि श्रीवत्सः अन्वेषणम् आरब्धवान् तत् श्रुत्वा मुदितः श्रीवत्सः हर्षितः मुदितः आनन्दितः श्रीवत्सः पर्णानि अन्वेष्टुम् प्रस्थितवान् कस्यचन कृषिक्षेत्रस्य समीपे शुष्कपर्णानां महन्तं राशिं सः दृष्टवान् कृषिक्षेत्रस्य समीपे शुष्कपर्णानां ड्रैड् लीव् इति महन्तं राशिं मेनि लीव् फालिङ्ग् देव सः आनन्दितः अस्तु एतां स्वीकृत्य एव गच्छामि मुष्टिमितानि अत्र मुष्टिमितानि मितानि इति परिमाणं दर्शयति मेजर्मेंटि हाँ मुष्टि गुरु कि मुष्टिपूर्ण पर्यन मुता मेजर्मेंट मुताली पर्न यूते स्थातवा तवत तवता सनम है कृषक धाव आगतवा शेव तन तस्वी यव स्था तावत् कृषकः तत्र धावन् आगतवान् अनन्तरं किं भवति तत् यतोपि न यतोहि तत्र दत्तं नास्ति तर्हि कृषकः पृच्छति किमर्थम् एतत् स्वीकरोति भवान् कारणं पृच्छति तेषां पर्णानां नयनस्य नयनस्य इत्युक्ते तु नी इति धातु नि इति टु केरि हा नयनस्य किमर्थं किमर्थं तत्र नयनम् इत्युक्ते तत्र किमर्थं भवान् नयति इति सः पृच्छति इदानीं श्रीवत्सः वदति निरुपयोगिनि एव पर्णानि मया दृश्यते अतः अहं स्वीकरोमि तदा कृषकः किं वदति न एतानि पर्णानि निरुपयोगिनी नास्ति न सन्ति अनन्तरं किं वदति भरत् एतानि जालयित्वा एतानि ज्वालयित्वा किं दत्तमस्ति अत्र क्षिपेयं चेत् धान्यम् इतोपि अधिकतया उत्पद्येत् इत्युक्ते ज्वालयित्वा तत्र कम्पोस्ट् इति फर्टिलैज़र् इति कृषिक्षेत्रे क्षिपेयं चेत् धान्यम् इतोपि अधिकतया उत्पद्येत् तत्र निरुपयोगी निरुपयोगिनि पर्णानि इति नास्ति मम धान्यस्य वर्धनस्य कृते अहम् उपयोजयामि एतानि न निरुपयोगिनी इति सः उक्तवान् अस्तु महोदय भरतमहोदय स्पष्टमस्ति तत् श्रुत्वा श्रीवत्सः किं कृतवान् किं कृतवान् तत् श्रुत्वा महोदय श्रीवत्स तानि Mm. Mm. इत्युक्ते तत्र श्रीवत्सः ज्ञातवान् गुरोः पश्यन्तु गुरोः कण्डिशन् किम् अस्ति निरुपयोगिनि अस्तु mm. तत् धान्यम् अधिकतया वर्धयेत् इति विचिन्त्य तत्र कृषिक्षेत्रे कृषकः उपयोजितुम् अर्हति तत् मया तत्र निरुपयोगिनिपर्णानि इति नास्ति अस्तु तत्रैव क्षिप्त्वा अग्रे अगच्छत् क्षेपणम् त्रयि तत्रैव क्षेपणं कृत्वा सः अग्रे अगच्छत् अग्रे पश्यामि कुत्रचित् लभ्यते निरुपयोगिनि पर्णानि इति विचिन्त्य सः अग्रे गच्छति स्पष्टमस्ति भारतमहोदय अस्तु इदानीम् अवष्टमहोदय भवान् पठति वा अग्रे गतः <laughs> अग्रे गतः सः hmm. नद्यां पतितानि पर्णानि स्वीकुरुं स्वीकर्तुं hmm. प्रयत्नम् अकरोत् अत्र hmm. सः पर्णेषु सुरक्षिततया स्थितान् कीटान् कि, अपश्यत् अग्रे पर्णानि वहन्त्यः कश्चन पिबीलिकाः तेन दृष्ट्वा स्वचं वा तत्र स्वचञ्च्वा चञ्चु इति बिक् स्वस्य स्वचञ्च्वा पर्णानि नयन्तं काकं काकमित्युक्ते क्रु तत्र चञ्चु उपयोजितुं काकं पर्णानि नयति तं दृष्ट्वा नयन्तं काकं पर्णानि नयन्तं काकं चञ्च्वा इत्युक्ते साधनरूपेण तृतीयान्तपदं स्वचञ्च्वा पर्णानि नयन्तं काकं दृष्ट्वा अग्रिमे पठतु कः इतरां विस्मितः यतः तानि पर्णानि काकशावकानां या जातानि आसन् इत्युक्ते एकमेकं एकम वाक्यं स्वीकृत्य वदतु अग्रे सः किं पश्यति प्रयत्नं नदी नदी तत्रदी अस्ति नद्यां नद्यां किम् अस्ति पतितानि पर्णानि हा अग्रिमे पतितानि पर्णानि सन्ति अतः तत् पतितानि पर्णानि स्वीकृतुं सः प्रयत्नं करोति अकरोति भूतकाले परन्तु तत्र सः किं पश्यति पर्णेषु या सम्यक् कितान् इत्युक्ते किताः कृमयः कृमि जन्तुम् कृमयः जन्तवः तत्र, पर्स त्र पति पर्णन सोल पति पर्णी तहव कीटा सी बहव जंतवा सी बहव कृम सी पर्क पर्ना आधारेण तीवनमस्ती तुते सुरक्षित स्थिता कीटा अपश्य अग्रे किम् अपश्यात्पीलिकाः पिपीलिकाः इत्युक्ते hmm. तदपि सः दृश्यति सः पश्यति पर्णानि वहन्त्यः का काश्चन पिपीलिका पिपीलिकायाः आधाररूपेण तत्र पर्णमस्ति आधाररूपेण पर्णानि सन्ति अनन्तरं काकः hmm. क्रो स्वस्य चञ्चुः उपयुज्य सः पर्णानि नयति तत्र पर्णानि कथम् उपयोजयति काकं काकः तस्य शय्यारूपेण नेस्ट् बिल्डिङ्ग् कृते तत्र निडल इति अस्ति खलु तत्र um, शय्यारूपेण सह योजयति शय्या जाता शय्या इत्युक्ते बेड् ओके सो युल् बि यूसिङ्ग् देन्स् हिज़् बेड् इन् हिस् नेस्ट् काकशावकानां शय्या जातानि आसन् इत्युक्ते तत्रापि सः किं चिन्तितवान् अस्तु कृषिक्षेत्रे यानि पर्णानि सन्ति तत्र कृषकस्य तेषां स्वीकृत्य कृष्कृषकस्य कुछ, उपयोगं भवति परन्तु नद्यां पतितानि पर्णानि तत्तु निरुपयोगिनी एव अतः अतः अतः सः प्रयत्नं कृतवान् परन्तु तत्रापि पर्णन स्वीक त्र कीटा सी जंत सृमय सी अग्रे पिपीलि पश्य अन का उपयुज्यय्या शय्या तरूपयोगिनी पर्णी न सी एशा स्थिति गुरुः किम् उक्तवान् मया किं दन्तव्यं मह्यं ददातु मह्यं देहि किं निरुपयोगि पर्णानि निरुपयोगिनि पर्णानि इदानीं पर्यन्तं तु स्थिति का यावत्पर्यन्तं सः अवलोकनं कृतवान् आसीत् तावत्पर्यन्तं निरुपयोगिनि पर्णानि नास्ति एव अग्रे किं भवति तत् पश्यामः इतपर्यन्तं स्पष्टमस्ति महोदय अवश्य महोदय सन्देह अस्ति चेत् पृच्छतु कस्यापि शब्दस्य अवलोकनम् अवगमनं न भवति चेत् पृच्छतु वयं पुनः एकवारम् अवलोकनं कुर्मः सन्देहः अस्ति ओके पुनः एकवारं वदामि वा पुनः एकवारं वदामि अनन्तरं भवान् पुनः एकवारं पठतु हा पश्यन्तु अत्र स्थितिः का गुरुः उक्तवान् किम् शिष्यस्य प्रश्ने सति गुरुदक्षिणारूपेण किं ददामि इति प्रश्ने सति गुरुः उक्तवान् किं ददातु मह्यम् ददातु निरुपयोगिनि पर्णानि ददातु इति गुरुः अस्तु mm -hmm. अनन्तरं शिष्यः अवगमनं कृतवान् प्रथमतया तु कृषिक्षेत्रे गतवान् कृषिक्षेत्रं गतवान् तत्र शुष्कानि पर्णानि सन्ति शुष्कानि पर्णानि ड्रैड् लीव्स् इति हा mm -hmm. शुष्कानि पर्णानि सन्ति सः एतानि स्वीकृत्य अहं गुरुं ददामि mm -hmm. गुरुवे ददामि इति परन्तु mm -hmm. निरुपयोगानि न सन्ति अस्य तेषाम् उपयोगं कृत्वा कृषिकः तत्र वर्धनं करोति तत्र धान्य धान्यवर्धनं करोति अधिकतया उत्पद्येत् इति वदति फर्टिलैज़र् इति रूपेण सह उपयोजयति निरुपयोगिनी नास्ति अस्तु सह अग्रिमे गचति अग्रे गतिता पर्दे पतिता पर्णन तो निपयोगिनीचि तछति परंतु पर्नाधारेण बव बहव कीटा बहव जंतव बहव कृम सहश्य अस्त अ पर्णन निरूपयोगिनी जीवन से जीवने आधारूपेण पर्न सीटका बहुत त्र कीटका सी तंते आधारूपेण पर्णन सी निरूपी नी तीलिपी वह पिपीलि सः पश्यति पर्णानि स्वीकृत्य पिपीलिकाः तत्र वहन्ति इत्युक्ते पर्णानि निरुपयोगिनी नास्ति इतोपि सः पश्यति किं पश्यति एकः काकः अस्ति स्वस्य शय्यायाः कृते शय्या इत्युक्ते बेड् तत्र निडरे तत्र शय्यायाः स्वचञ्च्वा चञ्च्वा चञ्चु चञ्च्वा तृतीयान्तपदं पर्णानि नयति स्वस्य कृते स्वस्य निवासस्य कृते वासमकरोत् तत्र हा? तत्र शय्यारूपेण इत्युक्ते किं निरुपयोगिनि पर्णानि नास्ति एव एतावत्पर्यन्तम् अस्तु महोदय सम्यक् अस्ति इदानीं um, um, and so bani next friends ha the decision ask him the, the is guru to to give some dakshina sabna so and the guru said mm -hmm. that mm -hmm. he goes uh, get some some useless leaves mm -hmm. and the bring neck? and bring as, as dakshina oh. so the decision so the shishya he uh, started to to get this these leaves and in, ah. in the process and, and in the process he discovered that these leaves are not useless because, because they served as as, as fertilizer as food mm. to a lot of of animals and so on डिफ्रेण्ट् पर्पजस् अस्तु सम्यक् अस्ति अवगानं सम्यक् अस्ति धन्यवाद उत्तमम् अस्ति महोदय अस्तु अग्रिमे धन्यवाद अग्रिमे पठति वा विना भगिनी भवती पठति एकस्मिन् वृक्षे एकस्मिन् वृक्षे लम्बमानं पर्णम् दृष्ट्वा श्रीवत्सस्य उत्साहः प्रवृद्धः तत् स्वीकर्तुम् यदा सः समीपम् गतवान् तदा विलक्षणम् दृश्यम् पर्णमूले नूतनपर्णस्य ङ्कुरः उद्भवन् आसीत् hmm. कीटादिभ्यः कीटादिभ्यः hmm. तस्य रक्षणार्थं पर्णम् अधुना तत्रैव लग्नम् अस्ति hmm. कीटादिभिः साधितम् इत्यतः पङ्के पर्णे जालं पक्वे पर्णे पक, जालं निर्मितम् आसीत् hmm. तथापि तत् पर्णं रक्षणकार्ये कार, युक्तम् आसीत् hmm. एवं येन केनचित् रूपेण पर्णानि उपयोगिनी एव श्रीवत्सेन द्रष्ट द्रष्टानि तावत्पर्यन्तम् इदानीं का शितिः वदतु हा भगिनि एकस्मिन् वृक्ष वृक्षे लम्ब लम्बमानं दट् इस् लाङ्ग् लाङ्गर् लीस् दृष्टवान् श्रीवत्तः दृष्टवान् हा हेङ्गिङ्ग् ओके दृष्टवान् सः उत्सुकः अभवत् यावत् यावत् सः उत्सुकः भवेत् स तावत् सः यदा यदा अन्य अन्य क्रिये चमभवत् सः सः उत्साहः उत्साहेन सः तत्र गतवान् किमर्थं हा इदानीम् अहं प्राप्स्यामि किं निरुपयोगिनी नि पर्णा परन्तु तत्र किं दृष्टवान् पर्णमूले नूतनपर्णस्य अङ्कुरः उद्भवन् आसीत् अङ्कुरः नवनिर्मिति पर्णस्य मूले किम् अभवत् नूतनपर्णस्य अङ्कुरः जर्मिनेषन् तत्र अङ्कुरः उद्भवन् आसीत् कीटादिभ्यः तस्य रक्षणार्थं पर्णम् अधुना अपि तत्रैव लग्नमस्ति लग्नं संयुक्तम् इति अस्तु तत्र कीटादिभ्यः तस्य रक्षणार्थं पर्णम् अधुनापि तत्रैव लग्नमस्ति नूतनः अङ्कुरः तस्य रक्षणं कस्मात् भवेत् कीटादिभ्यः कीटाः सन्ति ते खादिष्यन्ति नूतनं पर्णम् अतः तत्र नूतनं पर्णं तस्य उपरि तस्य उपरि उपरि जीर्णं पर्णम् तत्रैव जीर्णं जीर्णं पर्णम् अपि तत्र एव संयुक्तम् कीटादिभ्यः रक्षणार्थं कस्य अङ्कुरस्य रक्षणं कस्मात् कीटादिभ्यः इति हाँ। कीटादिभिः खादितम् इत्यतः पक्वे पर्णे जालं निर्मितमासीत् रक्षणार्थं पक्वे पर्णे जालं निर्मित प्रोटेक्टिव् लेयर् इति जालं निर्मितम् आसीत् तथापि तत् रक्षणकार्ये युक्तमासीत् यत् लम्बमानं पर्णम् अपि निरोपयोगी इति नास्ति किमर्थं नूतनपर्णस्य रक्षणकार्ये तत् सज्जमस्ति इति भगिनी पश्यतु अत्र निसर्गस्य योजना अस्ति अत्र किमपि निरुपयोगी इति नास्ति नूतनं पर्णं तत्र उद्भवति परन्तु नूतनपर्णस्य अपि रक्षणम् भवेत् अतः तत्र निसर्गस्य योजना कीदृशी तत्रापि जीर्णं पर्णं रक्षणकार्ययुक्तम् तथैव आसीत् यदा नूतनपर्णस्य सम्यक्तया योग्यरीत्या उद्भवनम् सम्पूर्णं जात जाते सति तदा लम्बवानं पर्णं पतिष्यति तस्मात् प्राक् एवं खलु केन केन रूपेण पर्णानि उपयोगिनि एव श्रीवत्सेन दृष्टानि तत्र अस्माभिः तत्र द्रष्टव्यम् तत्र उद्याने अपि नूतनं पर्णम् अनन्तरं जीर्णं पर्णम् परनं। परन्तु जीर्णं पर्णं कदा पतिष्यति यदा नूतनपर्णस्य उद्भवनं सम्यक् रीत्या योग्यरीत्या भविष्यति चेदेव एवमस्ति अस्तु भगिनी हा भगिनी <laughs> स्पष्टमस्ति अस्तु अनन्तरं माल्तीभगिनी भवती पठति वा माल्तीभगिनी अस्ति वा श्रान्तः सः पठतिवा. पठति वा अस्ति वा सा भगिनि हा पठति वा पठति पठामि श्रान्तः सः रिक् mm. रिक्तहस्तः सन् सन् आश्रमं प्रत्यागत्य mm. गुरुम् उक्तवान् mm. एकमपि निरूपयोगी वर्णं मया न प्राप्तम् इति श्रान्तः mm. टयर्ड् अग्रिमे अपि पठतु तदनन्तरं वदतु सन्तुष्टः गुरुः तस्य हस्तौ गृहीत्वा उक्तवान् मया दक्षिणा प्राप्ता त्वं सुकेन स्वस्थानं गच्छ सर्वदा स्मर यत् जगति किमपि वस्तु निरुपयोगी नास्ति इति एतत् स्मरसि चेत् सर्वदा यशस्वी भविष्यसि शुभ सुब, शुभमस्तु ते इति गुरोः आशीर्वादेन एर्वा, सन्तुष्टः श्रीवत्सः ततः प्रस्थितवान् hmm. किं दत्तमस्ति भवती वदति श्रान्तः सः रिक्तहस्तः सन् आश्रमं प्रत्यागतवान् वदतु श्रान्तः hmm. रिक्तहस्तः एन् टु दि hmm. आश्रमं सम्यक् गुरु उक्तवान् किमुक्तवान् एकमपि निरु निरुपयोगी पर्णं मया न प्राप्तं ऐ एम् नाट् एबल् टु ब्रि न प्राप्तमेव न लभते एव अत्र निरुपयोगिपर्णं न लभते एव मया न प्राप्तं मम मम दृष्ट्या मम दृष्ट्या तत्र निरुपयोगीपर्णं न दृश्यते एव न प्राप्तमेव अस्तु इति सः उक्तवान् अग्रिमे किम् अभवत् गुरु गुरु हि स्याति अबौट् हिस् आन्सर् अण्ड् हिम् i thought mm -hmm. my uh, dakshina is uh, uh, you happily you go sarvata always uh, always remember mm -hmm. remember that in this world nothing is useless everything ah. is useful correct anybody अत्र गुरुः सन्तुष्टः जातः तस्य हस्तौ हस्तद्वयम् इति तथा द्विवचनान्तरूपं हस्तौ गृहीत्वा हस्तौ गृहीत्वा इत्युक्ते आनन्दप्रीत्यर्थः तत्र आनन्दं दर्शयति हस्तौ गृहीत्वा होल्डिङ्ग् इस् हेण्ड् उक्तवान् मया दक्षिणा प्राप्ता अहं किमपि न इच्छामि मटेरियलिस्टिक् थिङ्ग् अहं न इच्छामि अहं के शिष्यस्य कल्याणप्र मार्गम् एव इच्छति त्वं सुखेन स्वस्थानं गच्छ यत् भवान भवान् अनुभवं स्वीकृतवान् तत् एव मया तत् एव मम दक्षिणा सुखेन स्वस्थानं गच्छ सर्वदा स्मर यत् जगति किमपि वस्तु निरुपयोगी नास्ति भवतः अवगमनं यत् कोऽपि निरुपयोगी नास्ति जगति एतत् एव सा एव मम दक्षिणा भवतः अवगमनम् एव मम दक्षिणा तत् प्राप्ता एतत् स्मरसि चेत् सदैव सर्वदा सर्वदा फार् यशस्वी भविष्यति शुभम् अस्तु इति कल्याणम् अस्तु शुभम् अस्तु इति गुरोः आशीर्वादेन संतुष्टः श्रीवत्सः ततः तस्थित स गुरुकुले तयन सत सो कोध जीवने आवश्यक के अस्सी बोध कि वस्तु निरुपयोगी hmm. एक मनसी तत् तस्य स्मरणं भवदी कि निरुपयोगी न किमपि निरुपयोगिन एतत् स्मरसि चेत् सर्वदा यशस्वी भवति इति सः आशनानि उक्तवान् अस्तु स्पष्टमस्ति स्पष्टमस्ति इदानीं लास्ट् पार्ट् सर्वेषां कृते अस्ति वाक्यद्वयम् वाक्यत्रयं वदतु मल्ति भगिनी धन्यवादः धन्यवादः अस्तु बोधः किं वदतु श्रीवत्समोदय वदतु राधाभगिनी वीणा भगिनी वदतु एकम् एकं वदतु श्रीवत्समोदय कथायाः तात्पर्यरूपेण बोधरूपेण वदति वा कथायाः तात्पर्यः किमपि वस्तु निरुपयोगी नास्ति सर, सर्वे सर्वाणि वस्त, वस्तु अपि एकः सर्वाणि वस्तूनि वस्तु, वस्तु इति नपुसकलिङ्गि खलु सर्वाणि वस्तूनि सर्व सर्वाणि वस्तूनि एक किमपि कारणात् उपस्थितः आसीत् सम्यक् उपयोगिनी, उपयोगिनि अस्ति सन्ति इति अस्तु इतोपि राधा भगिनी आं भगिनि एतत् एतत् जगतं सर्ववस्तूनि सर्वाणि वस्तूनि उपयोगं सन्ति उपयोग उपयोगिनि उपयोगिनि इति उपयोगिनि ओके okay. वस्तूनि उपयोगिनि सन्ति अहम् hmm. एवम न जानामि तत्कारणं भूमिं बहवः वस्तूनि नष्टं करो करोमि hmm. तत् कारणं मम वातावरणं वा, वातावरणम् एवम् अभवत् अत्र भवती यत् उक्तवती वदतु एवमेव अत्र यत् भवती उक्तवती तत्र मम एकं चिन्तनम् अत्र एकं सुभाषितमस्ति अस्ति अमन्त्रम् अक्षरं नास्ति नास्ति मूलम् अनौषधम् अयोग्यः पुरुषः नास्ति योजकः तत्र दुर्लभः इत्युक्ते किं देर् इस् नो सिङ्गल् सिलेबल् विच् डस् नाट् हाव् द्रमन्त्रम् अक्षरं नास्ति ओके नास्ति मूलम् अनौषधम् देर् इस् नो सिंगल रूट् ओ सिङ्गल् प्लान् यु केन् से दोट् हव् अ मेडिसिनल् अयोग्यः पुरुषः नास्ति अत्र अहं वदामः हा एक एकनिमिषं म्यूट् करोतु म्यूट् करोतु किञ्चित् एको आगच्छतु एकवारं म्यूट् करोतु हा अत्र वयं वदामः सः अयोग्यः सः न योग्यः न अयोग्यः पुरुषः एव नास्ति दुर्लभः योजकः तत्र दुर्लभः देर् इस् नोट् अ सिङ्गल् मेन् हु इस् यूस्लेस् वी केन् से बट् कः दुर्लभः द पर्सन् हु केन् कनेक्ट् आल् दिङ्ग्स् इन् द प्रापर् वे ओर् प्रापर् फङ्क्षनल् पायिण्ट् आफ् व्यू देट् इस् रेयर् देट् इस् दुर्लभः तत् मम मनसि आगच्छति तत् भवती यत् उक्तवती तेन आधारेण एवमस्ति खलु अयोग्यता तत्र नास्ति एव वी आर् जस् लेबलिङ्ग् तत् न योग्यम् एतत् सम्यक् नास्ति योग्यं नास्ति समीचीनं नास्ति न ना? अयोग्यः पुरुषः नास्ति एव योजकः तत्र दुर्लभः योजना यदा निश्चयेन चिन्तित्वा विचिन्त्य भवति चेत् तत्र अयोग्यता न वर्तते एव एवमस्ति अस्तु वीणा भगिनी अनन्तरं भारतमहोदय वदतु वाक्यद्वयं त्रयं वदतु प्रयत्नं करोतु विणा भगिनी वदतु सर्वाणि um, पदार्थानि um, प्रयोगः सन्ति um, पर्य परन्तु वयं ज्ञानम् आवश्यकं कथं कथं प्रयोजनम् कस्य कथं ते तेषाम् उपयोजनं भवति न सम्यक् अस्ति उत्तमं उत्तमं उत्तमम् इदानीं जयन्ती भगिनी तु वक्तुं न शक्नोति एव भारतमहोदय भवान् वदति वाक्यद्वयं वा एकं बोधे का वदति जयन्ती भगिनी वक्तुं शक्नोति श्यामला भगिनी श्यामला भगिनी हा वदतु श्यामला भगिनी हा हा अस्तु अस्तु श्यामला भगिनी न दृष्टवती एव हा वदतु वदतु सर्वाणि सर्वाणि सर्वाणि वस्तूनि एवं वदति वा सर्वाणि वस्तूनि बहु आवश्यकम् अस्ति परन्तु वयं मुख्य मुख्यमेव कार्यं कर्तुं तः उपयोजं कुर्वन्ति इत्युक्ते अवगतं मया तत्र भवती वक्तु इच्छति तत्र लघुरूपेण अपि सर्वाणि वस्तुनि यानि कानि सन्ति लघुत्वरूपेण अपि न वस्तूनि सन्ति तेषां कार्यम् अपि महत्त्वपूर्णं भवति अत्र एकं स्मरामि स्वे सेतुबन्धन सेतु सेतु सेतुबन्धनं कार्ये तत्र रामरावणद्वयोः मध्ये यत् युद्धं जातं सेतुबन्धने तत् स्क्विरिल् इति तस्या अपि योजना अभवत् खलु अस्तु अस्तु एवमस्ति सत्यं सत्यम् अस्तु भगिनि उत्तमम् उत्तमं भारतमहोदय वदतु प्रयत्नं करोतु सर्वे प्रयत्नं मिनि निमिषद्वयमस्ति अस्माकं समये भारतमहोदय अगष्टमहो वदतु सर्वाणि वस्तु उपयोगी अस्ति उपयोगिनी इति सर्वाणि वस्तूनि उपयोगिनि नास्ति एव निरुपयोगिनी वस्तुनि नास्ति जगति निरुपयोगिनी वस्तूनि नास्ति एव इति बोधनं सम्यक् योग्यमस्ति आगस्ट् महोदय वदति वा And some things that apparently are imperfect or are useless but, but in a broader view mm -hmm. we can see the the perfection of the creation and sex sexum thing mm -hmm. this same reasoning can be applied to asbagini said said to the way that we see people needs to uh, neutralize the lasanas like uh uh these disregard these pain so on so it is right uh, it's good to pratipaksha bhav hum mm. satyam satyam satyam mauday satyam uttamah vichara satyam satyam eva asato उत्तमं धन्यवादः धन्यवादः महोदय अस्तु हा इदानीं समयः अपि जातः वदति वा वीणा भगिनी शान्तिमन्त्रं वदति वा भगिनि वयं समापयामि वदतु वाट्सप् ग्रूप् नम्बर् अस्तु भवत्याः एकनिमिषम् मोबैल् नम्बर् वदतु वा ए, एकम करोतु भगिनि अत्र चाट् मध्ये स्थापयति वा भवत्याः मोबैल् नम्बर् किमस्ति तत् चाट् मध्ये ददाति वा न चाट् मध्ये चाट् मध्ये स्थापयतु अत्र भवती कुत्र निवसति अहं चेन्नैनगरे वसामि चेन्नै एव अस्तु अस्तु भारतदेशे एव अस्ति भारत हा वदति वा चाट् मध्ये स्थापयति बिचेफर् इस् कन्विनियण्ट् फोर् यु वन् मिनिट् ऐ ह् वाट्सप् ग्रूप् अस्ति वा भगिनि वाट्सप् ग्रूप् भगिनि भवत्याः नम्बर् तत् uh, मोबैल् दूरध्वनिक्रमाङ्कः अत्र स्थापयतु चेट् मध्ये uh, अस्तु भगिनि hmm. नो चेत् वदतु तदपि कर्तुं शक्नोति वक्तुं शक्नोति वा अहम अहं चाट् मध्ये एवं स्थापय स्थापयतु चाट् मध्ये स्थापयतु इन् दीन् टैम् राधा भगिनी तत् शान्तिमन्त्रं वदति वा भगिनी वीणा भगिनी शान्तिमन्त्रं वदति वा अस्तु अस्तु वदतु ओम् पूर्णमाधवः पूर्णमिदं पूर्णात् पूर्णमुदच्छति पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्ति शान्तिशान्तिः धन्यवादाः धन्यवादः धन्यवादः धन्यवादः अहं स्थापय स्थापयति भगिनी अत्र श्यामला भगिनी अस्तु परन्तु धन्यवाद न अग्रिमे वर्गे वदिष्यति भवती धन्यवादः आगामिवर्गे हा मालती भगिनी अपि अत्र स्थापितवती अस्तु मालति निमिषम् एकनिमिषं तत्र स्टोरीस् वाट् यु पोस्ट् इन् द क्लास् यु नो इन् द वाट्सप् ग्रूप् सो देट् इट् विल् बि इसि फोर् अस् टु Uh, read it some other time or, you know, it will be very useful if you can post it in the WhatsApp group.